मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् एय्टीन् युगप्रभावकर्मसिद्धिवर्णनम् श्रीगणेशाय नमः सूत उवाच कृते कलिमुखाश्चैव युगाः सन्धिमहर्षयः कृताज्ञापालका सर्वे कृतमानभयार्दिताः तत्राहुकृततुल्यं वै सर्वेषां जन्मिनां सदा पापाचारादियुक्तानां सर्वं कृतसमं भवेद् शापादिकं नराणां तु सफलं कृतभावदः भवते पापिनामेव यथा सुकृतीनां वचः तत्र भेदं प्रवक्ष्यामि नरोपराधसंयुधः न भवेच्छापभिदः सन्कृते युगप्रमाणदः तद्वत्रदा युगे विप्रयुगास्त्रयः कृदादयः वरुदन् देभय संयुक्तास्त्रदायां नात्र संशयः पापिनां सुकृतीनां चायुरादितत्समं भवेद् त्रदायुगप्रमाणेन ज्ञातव्यं द्विजसत्तमा द्वापरे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः तेन सर्वं तदाकारं फलं भवति कर्मजम् आयुरादिनराणां च द्वापरेण समं भवेद् नानाभावास्तदाकारा मया वक्तुं न शक्यते कलौ युगास्त्रयस्तेदु तदाज्ञावशवर्तिनः वरुदन्ते तेन कर्मादि फलं कलिसमं भवेद आयुरादिमहर्षे तु कलितुल्यं न संशयः सुकृतिनां महापापिनां युगस्य प्रमाणदः अदोलेशमयि सिद्धिकलौ सत्कर्मकारिणां भविष्यति तथा सर्वमासुरेण हदं भवेद योगशान्तिप्रदः प्रोक्तः स चदुर्षु मुनिसत्तमचतुर्षु युगधर्मेषु समरूपो भविष्यति कृते कर्मकृतं चैकफलदं शास्त्रसम्मदे त्रेधायां तद्दशाधिक्यं द्वापरेदु सदाधिकं सहस्रगुणसंयुक्तं भवते सर्वमञ्जसा कलौ युगेन सन्देहो गणेशवरदानदः कलौ तावन्मयं प्रोक्तं विकर्म कृतमञ्जसा फलदं द्वापरे तच्च दशाधिक्यं भवेत् परं त्र्यां तच्चाधिक्यं कृते साहस्रकं युगम से महात्म्याशिद मुनि पुरा प्रमाणा युगेशु कथिता कथिता तत्रा समासदह, सध सिद्धि प्रवक्षा कलौ सर्वादाइचुधम कर्म फलद तत् क्षणाद्भवेद् असुरेण कलिना सर्वमावृतं फलं कर्मभवं विप्रतस्माद्ना विप्रतस्माद् न फलदं भवेद् कर्मसिद्धिं कलौ तत्र यदि चदि जनो हृदि सर्वादावयुतं कुर्यात् गायत्री सम्भवं जपम् अविश्यान्नं तु भुक्त्वा स एकभुक्तपरायणः ब्रह्मचर्ययुधो जन्तुःसत्यभाषी जितेन्द्रियः शौचाचारसमयुक्तो द्वेषादिश परित्यजेद् मनसा विस्त्रियं नैव भोगार्थं संस्मरेत्कदा यदादेकम् समागृह्य नरः कर्मपरायणः मनसा विषयं चेच्छेत्तदा सिद्धिकथं भवेद् एवमादिस्वधर्मस्थां क्रियां कृत्वा महायशाः गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेद् तदकृच्छ्रं समाकुर्यात्तदः कर्म समाचरेद स सर्वकलिदोषेण मोक्तसिद्धिमवाप्नुयात् यथोक्तविधिना कर्म कृतं येन महात्मना चतुर्गणं कृतं कर्म द्विजादिभिः कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे केवलासुरभावेन सत्कर्म मानवेन च सहस्रगुणितं कर्षात् कृतमासुरगम् भवेद सुरासुरस्वभावेन सुरा कृतं कर्म शुभाशुभम् सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् एवं सर्वं समाख्यादम् युगधर्मरहस्यकं सङ्क्षेपेण कलौ तद्वत्सिद्धिदं मुनिसत्तम शृणुयादिदमाख्यानं युगानां मानवः परं पठेद्वा पाठयेत्सोऽपि दोषहीनो भवेत्तदः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते नाम अष्टादशोऽध्यायः ॐ